नारदपुराणम् पूर्वार्थम् अध्यायम् सिक्स्टिवन् सनत्कुमार उवाच अशोकम् शोकनाशार्थम् शास्त्रम् शान्तिकरम् शिवम् निशम्य लभ्यते बुद्धिर्लब्धायाम् सुखमेधते हर्षस्थानसहस्राणि शोकस्थानशतानि च दिवस्य दिवस्य मूढमाविंशति न पण्डितम् अनिष्ठसम्प्रं योगाश्च विप्रयोगात् प्रियस्य च मनुष्यमानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः द्रव्येषु समतीतेषु ये गुणास्तेर्न चिन्तयेद् तान नाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते अनिष्टबुद्धिदां यच्चेत्तदः क्षिप्रं विराजते नार्थो न धर्मो न यशो योदीदमनुशोचदि अस्याभावेन युज्येदं तञ्चास्यदु निवर्तते गुणैर्भूतानि युज्यन्ते तथैव च न युज्यते सर्वाणि नैददेकस्य शोकस्थानं हि विद्यते मृदं वा यदि वा नष्टं योदिदमनुषोचति दुःखेन लभते दुःखं महानार्थे प्रपद्यते दुःखोपघाते शारीरे मानसे चाप्युपस्तिते, यस्मिन् न शक्यते कर्तुं यत्नस्तन्नानुर्चिदयेद् भैषज्यमे दद्दुःखस्य यद् तन्नानुचिन्तयेद् चिन्त्यमानं हिनव्येदि भूयश्चाभिप्रवर्धते प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः एतद्विज्ञायसामर्थ्यं न वान्यै समतामियाद अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्जयः आरोग्यं प्रियसंवासं न मृध्य पण्डितकुचिद नाज्ञानप्रभवं दुःखमेघं शोचितुमर्हति अशोचन्प्रतिकुर्वीद यदि पश्येदुपक्रमम् सुखाप्रियतरं दुःखं जीविते नात्र संशयः जरामरणदुःखेव्यप्रियमात्मानमुद्धरेद भजन्ति हि शारीराणि रोगा शारीरमानसाः सायका इव तीक्ष्णाग्रा प्रयुक्ता दृढधन्विभिः व्याधितस्य चिकित्साभिस्त्रस्य दो जीवितैषिणैः व्याधितस्य चिकित्साभिस्त्रस्य दो जीवितैषिणः मयस्य विनाशाय शरीरमनुगृह्यते स्रंसन्ति न निवर्तं ते श्रोतांसि आयुरादायमर्त्यानां आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः अपयंत्ययमत्यं तं पक्षयो शुक्लकृष्णयोः जातं मर्त्यं जरयदि निमिषं नावतिष्ठते सुखदुःखाभिभूतानामजरो जरयत्यसून् आदित्यो ह्यस्तमभ्येदि पुनः पुनरुदेति च अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ष्ठामनुष्याणां मदं गच्छन्धिरात्रयः यो यदि चेद्यथाप्नुयाद यदि स्यान्नपराधीनम् पुरुषस्य क्रियाफलम् संयदाश्चैव तक्षाश्च मदिमं तश्च मानवाः दृश्यन्ते निष्फलास्सं तः प्रहीनाश्च स्वकर्मभिः अपरे निष्फलाः सन्धो निर्गुणा पुरुषाधमाः आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः भूतानामभरः कश्चिद्धिंसायां सततोद्धिदः वञ्चनायां च लोकेषु ससुखेष्वेव जीयते अचेष्टमानमासीनं श्रीकञ्चिदुपतिष्ठति कश्चित् कर्माणि गुरुदे न प्राप्यमधिगच्छति अपराधान् पुरुषस्य स्वभावतः शुक्रमन्यत्र पुनरन्यत्र गच्छति तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते केषां चित्पुत्रकामानमनुसन्तानमिच्छतां सिद्धौ प्रयदमानानां नैवाम्ड मोपजायते गर्भादुद्विजमानानां क्रुद्धा दही विषदिव आयुष्मान पुत्र कथं प्रदः पिदेवसः देवानिष्ट्वा तपस्तप्त्वा कृपह्यि पुत्र हेदुभिः दशमः सन् परिधृता जायते कुलपांसनाः अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः अन्योन्यसमभिप्रेत्य मैधुनस्य समागमे उपद्रव इव दृष्टो योनो गर्भप्रब्यते स्निग्ध दिन्द्रियार्थेषु मोहान्मरणमप्रियं परित्यजति यो दुःखं सुखमव्युभयं नरः अत्येदिब्रह्म सोऽत्यन्तं सुखमप्यश्नुदे परं दुःखमर्थाहि त्यज्यन्ते पालने चनते सुखाः श्रुत्वैव नाधिगमनं नाशमेषां न ना चिन्तयेद अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः अधृत्वा यान्ति विध्वंसं सन्तोषं यां दि सर्वे क्षयान्दा निचयाः पदनाम् समुच्छ्रयाः सं योगाविप्रयोगां ता मरणां तं हि जीवितम् अन्दो नास्ति परमं सुखम् तस्मात् सन्तोष मे वेहधनं संसन्धिपण्डिताः निमेषमात्रमपि हि योधि गच्छन्न तिष्ठति स शरीरेष्वनित्येषु नित्यं किमनुचिन्तयेद् भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परं न परमां गतिं सं मेवैनं कामाना विदृत्तकम् व्याघ्रपशुमिव साध्यं मृत्युरादाय गच्छति अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे अशोचन्नारभेन्नैव युक्तश्चा व्यसनी भवेद शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा नोपभोगात् परं किञ्चिद्धनि नो वा धनस्य नास्ति दुःखमनामयं विप्रयोगश्च सर्वस्य न वाचा ना प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च विचरेदसमुत्थन्नः स सुखी स च पण्डितः अध्यात्मगतमालिनो निरपेक्षो निरामिषः आत्मनैव सहायेन चरेत्सुखी भवेद् सुखदुःखविपर्यासो यदा समुपपद्यते नैनं प्रज्ञा सुनियतंत्रायते नापि पौरुषं स्वभावाद्यत्नमादिष्टे यत्नवान्नावसीदधि उपद्रव इवानिष्ठो योनिं गर्भः प्रपद्यते तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् प्राणिनां प्राणसं रोधे मांसश्लेष्मविचेष्टितं निर्दग्धं परदेहेन परदेहं बलाबलं। बलम् विनश्यदि विना मिवाचलां संगत्या जठरे न्यस्तं रेदो बिन्दुदुमचेतनम् केन यत्नेन जीवं तं गर्भं त्वमिह पश्यसि अन्नपानानि जीर्यं ते यत्र भक्ष्याश्च भक्षिताः तस्मिन्नेवोदरे गर्भ किं नान्नमिव जीर्यदि गर्भे मूत्रपुरीषाणां स्वभावनियदा गतिः धारणे वा विसर्गे च न कर्तुं विद्यते वशः आगमेन महान्येषां विनाश उपपद्यते ये तस्माद्योनि सम्बन्धाद् यो जीवन्परिमुच्यते पूजां न लभते काञ्चित् पुनर्धं द्वेषु मज्जति गर्भस्य सहजातस्य सप्तमीमीदृश्यं दशां प्राप्नुवन्ति ततः पञ्च न भवन्ति शदायुषः नाभ्युत् धाने मनुष्याणां योगास्युर्नात्र संशयः व्याधिभिश्च विविध्यन्ते व्याघ्रैः क्षुद्रमृगा इव व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनं वेदनानापकर्षन्ति ते चापि विविधा वैद्याः कुशलासम्मतौषधाः व्याधिभिः परिकृष्यं ते मृगाज्याघ्रैरिवार्धिताः तेऽपि बन्दिकषायांश्च सर्प विविधानि च दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः कैर्वा भुवि त रोगार्ता मृगपक्षिणः स्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते घोरानपिदुराधर्षानृपदीनुग्रते जस आक्रम्यरोग आदत् पशून् पशुपशो यथा इति लोकमनाक्रन्दं मोहशोक परिप्लुदम् श्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा न धनेन न राज्येन नोग्रेणतपसा तथा स्वभावाह्यदि वर्तन्ते येनर्मुक्ताः शरीरिषु उपर्युपरि लोकस्य सर्वो भवितुमिच्छति यतते च यथाशक्ति न च तद्वर्तते तथा न म्रियेरन्नधीर्येरन् सर्वे स्युः सार्वकामिकाः न प्रियं प्रति पद्येरन्नुदानस्य फलं प्रति ऐश्वर्य मदमत्ताश्च मानान्मयमेदन च मय मयमदेन च अप्रमत्ता षडा क्रूरा विक्रान्ता पर्युपासदे शोकाप्रतिनिवर्धन्ते येषां चिदसमीक्षतां स्वं स्वं च पुनरन्येषां न कञ्चिदधिगच्छति महञ्च फलवैषम्यं दृश्यते कर्मसन्धिषु वहन्ति शिबिका मन्ये यां तन्ये शिबिकारुहः सर्वेषां वृद्धिकामना मन्ये रथपुरःसराः मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः द्वन्द्वा रामेषु भूतेषु गच्छन्त्येकैकशो नराः इदमन्यत्परं पश्य नात्रमोहं करिष्यति धर्मं च वित्यजा धर्मं त्यज सत्यानृतां धियं सर्वं त्यक्त्वा स्वरूपस्थः भव निरामयः ये दत्ते परमं गुह्यमाख्यादमृषिसत्तम येन देवा परित्यज्य भर्त्यलोकं दिवं गदाः सनन्दन उवाच इत्युक्त्वा व्यासदनयं समापृच्छ महामुनिः सनत्कुमारप्रययौ पूजितस्तेन सादरं शुकोऽपि योगिनां श्रेष्ठ सम्यक् ज्ञात्वा ह्यवस्थितं ब्रह्मण पद्मन्वेष्टुमुत्सुकपिदरं ययौ तदः पित्राः समागम्य प्रणम्यज महामुनिः सुखप्रदक्षिणीकृत्य ययौ कैलासपर्वतं व्यासस्तद्विरहधूनपुत्रस्नेहसमावृतः क्षणैकं इति चक्रोश्च निरपेक्षशुको भूत्वा निःस्नेहो मुक्तबन्धनः मोक्षमेवानुसंचित्य गत एव परं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ओम्